अथ विंशः सर्गः तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावानिदमब्रवीत् ऊनषोडश रामो राजीवलोचनः न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः इयमक्षौहिणी सेना अनया सहितो गत्वा योद्धाहन्तैर्निशाचरैः इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः योग्या रक्षो गणैर्योद्धम् न रामम् नेतुमर्हसि अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनी यावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरैः निर्विघ्नाव्रतचर्या अहम् तत्र गमिष्यामि न रामम् नेतुमर्हसि बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् न चास्त्रबलसंयुक्तो न च युद्धविशारदः विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे जीवितुम् मुनिशार्दूल यदि वाराघवम् ब्रह्म सुव्रता चतुरङ्गसमायुक्तम् मया सह च तन्मया षष्टिवर्षसहस्राणि जातस्य मम नौषिका कृच्छ्रेणोत्पादितश्चायम् न रामम् नेतुमर्हसि चतुर्नामात्मजानाम् हि प्रीतिः परमिका ज्येष्ठे धर्मप्रधाने च न किम् वीर्या राक्षसास्ते च कस्य पुत्राश्च केच ते कथम् प्रमाणाः केचैतान् रक्षन्ति मुनिपुङ्गवा कथम् च प्रतिकर्तव्यम् तेषाम् रामेण रक्षसाम् मामकैर्वाबलैर्ब्रह्मन् मया वा कूटयोधिना स भगवन् कथम् तेषाम् मया स्थातव्यम् दुष्टभावानाम् वीर्योत्सिक्ता हि राक्षसाः तस्य तद्वचनम् श्रुत्वा विश्वामित्रोऽभ्यभाषत पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः बाधते भृशम् महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः श्रूयते च साक्षाद्वैश्रवणभ्राता पुत्रो विश्रमसो मुनेः यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः तेन सञ्चोदितौ तौ तु राक्षसौ च महाबलौ मारीच्च सुबाहुश्च यज्ञविघ्नम् करिष्यतः इत्युक्तो मुनिना तेन राजोवाच मुनिम् तदा न हि शक्तोऽस्मि तस्य दुरात्मनः सत्त्वम् प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके मम चैवाल्पभाग्यस्य दैवतम् हि भवान् गुरुः देवदानव गन्धर्वा यक्षाः पतकपन्नगाः न शक्ता रावणम् सोढुम् किम् पुनर्मानवा वीर्यमादत्ते युधि तेन चाहम् न शक्तोऽस्मि तस्य वा सबलो वामनिःश्रेष्ठसहितो वाममात्मजैः कथमप्यमरप्रख्यम् सङ्ग्रामाणा मकोविदम् बालम् वेतनयम् ब्रह्मन् नैव दास्यामि पुत्रकम् अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः यज्ञविघ्नगरौतौ ते नैव दास्यामि पुत्रकम् मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ तयोरन्यतरम् योद्धुम् यास्यामि स सुहृद्गणः अन्यथा त्वनु नेष्यामि भवन्तम् सह बान्धवः सुमहान् निवेशमन्युः सुहृत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितो महर्षि आदिकाव्ये बालकाण्डे रिंशः